अथ सप्तदशः सर्गः कृताभिषेको रामस्तु सीता सौमित्रिरेव च तस्माद्गोदावरीतीरात्ततो जग्मुस्वमाश्रमम् आश्रमम् तमुपागम्य राघवः सह लक्ष्मणः कृत्वा पौर्वाह्णीकम् कर्म पर्णशालामुपागमत् उवाससुखितस्तत्र पूज्यमानो महर्षिभिः स रामः पर्णशालायामासीनः सह सीतया विरराजमहाबाहुश्चित्रया चन्द्रमा इव लक्ष्मणेन सह भ्रात्रा चकार विविधाः कथाः तदासीनस्य रामस्य कथा, तदासी कथा संसक्तचेतसः तम् देशम् राक्षसी काचिदाजगामयदृच्छया सा तु शूर्पणखा भगिनी राममासाद्य ददर्श दीप्तास्यं दीप्तास्यम् च महाबाहुम् पद्मपत्रायते क्षणम् गजविक्रान्तगमनम् जटामण्डलधारिणम् सुकुमारम् महासत्त्वम् पार्थिवव्यञ्जनान्वितम् राममिन्दीव रश्यामम् दृष्ट्वा राक्षसी काममोहिता सुमुखम् दुर्मुखी रामम् वृत्तमध्यम् महोदरी विशालाक्षम् विरूपाक्षी सुकेशम् ताम्रमूर्ध्वजा प्रियरूपम् विरूपा सा सुस्वरम् भैरवस्वना तरुणम् दारुणा वृद्धा दक्षिणम् वामभाषिणी न्यायवृत्तम् सुदुर्वृत्ता प्रियमप्रियदर्शना शरीरज समाविष्टार राक्षसी राममब्रवीत् जटीतापसवेषेण स भार्यः शरचापधृक् आगतस्त्वमिमम् देशम् कथम् राक्षससेवितम् किमागमन कृत्यन्ते तत्त्वमाख्यातुमर्हसि एवमुक्तस्तु राक्षस्या शूर्पणख्यापरन्तपः ऋजुबुद्धितया सर्वमाख्यातुमुपचक्रमे नाम राजा त्रिदश तस्याहमग्रजः पुत्रो रामो नाम जनैः श्रुतः भ्रातायम् लक्ष्मणो नाम यवीयान्मामनुव्रतः इयम् भार्या च वैदेही मम सीतेति विश्रुता नियोगाप्तु नरेन्द्रस्य पितुर्मातुश्चयम् त्रितः धर्मार्थम् धर्मकाङ्क्षी च वनम् वस्तुमिहागतः त्वाम् तु वेदितुमिच्छामि कस्य वा त्वम् हितावन्मनोज्ञाङ्गी राक्षसी प्रतिभासि मे इह वाकिम् निमित्तम् त्वमागता ब्रूहितत्वतः सा ब्रवीद्वचनम् श्रुत्वा राक्षसी मदनार्दिता श्रूयताम् रामतत्त्वार्थम् वक्ष्यामि वचनम् मम अहम् शूर्पणखा नाम राक्षसी कामरूपिणी अरण्यम् विचरामीदमेका सर्वभयङ्करा रावणो नाम मे भ्राता यदि ते श्रोत्रमागतः वीरो विश्रमसः पुत्रो यदि ते श्रोत्रमागतः प्रवृद्धनिद्रश्च सदा कुम्भकर्णो महाबलः विभीषणस्तु धर्मात्मा न तु राक्षसचेष्टितः प्रख्यातवीर्यौ चरणे भ्रातरौ खरदूषणौ तानहंसमतिक्रान्तरामत्वापूर्वदर्शनात् समुपेतास्मि भर्तारं भर्तारम् पुरुषोत्तमम् अहम् प्रभावसम्पन्ना स्वच्छन्दबलगामिनी चिराय भव भर्ता मे सीतया किम् करिष्यसि विकृता च विरूपा च भार्यारूपेण पश्यमाम् इमाम् विरूपामसतीम् कराळाम् अनेन सह भ्रात्रा भक्षयिष्यामि मानुषी ततः पर्वतशृङ्गाणि वनानि विविधानि च पश्यन् सह मया कामी दण्डकान् विचरिष्यसि इत्येवमुक्तः काकुत्स्थः प्रहस्यमतिरेक्षणा इदम् वचनमारेभे भक्तुम् वाक्यविशारदः इत्यार्षे श्रीमद् रामायणे आदिकाव्ये अरण्यकाण्डे सप्तदशः सर्गः